श्रीमद्भागवत् महापुराणं दशमस्कन्धम् अथ त्रयसीति तपोऽध्यायः भगवान् की पठराणयो के साथ द्रौपदी की बातचीत् श्रीशो उवाच तथानुगृह्य भगवान् गोपीनां च गुरुर्गतिः युधिष्ठिरमथा पृच्छ सर्वांश्च सुहृतो लोकनाथेन परिपृष्टा सुसृताः प्रत्यो तत्पादेक्षा हतां हस कुतो शिवं तच्चरणाम्बुजाशमं महन्मनस्तो मुखनिश्रितं क्वचे पिबन्ति ये कर्णपुटैरलं प्रभो देहं भृतां देहकृतस्मृतिच्छिदं हित्वात्मधामविधुतात्मकृतव्यवस्थ मारन्दसंप्लवमखण्डमकुण्ठबोधम् कालोपसृष्टनिगमावन आत्मयोग मायाकृतिं परमहंस गतिं नतास्म ऋषिर्वाच इत्युत्तमश्लोकशिखामणिं जने स्वभीष्टुं वस्त्वन्धककौरवस्त्रियः समेत्य गोविन्दकथामिथो गुणं श्लोकगीताशृणवर्णयामि ते द्रौपद्युवाच हे वैदर्भचितो भद्रे हे जाम्बवती कोसले थे सत्यभामे कालिन्देशैव्ये रोहिणीलक्ष्मणे थे कृष्णपत्न्ये तन्नो भ्रूतभो भगवान् स्वयम् उपये मे यथा लोकम् अनुकुर्वन् समाययां रुक्मिण्युवाच चैध्यायं मार्पयतुम् उद्यत कार्मुकं का कार्मुकेशो राजस्वजेन् स्वजेय भटशेखरिताङ्घ्रिरेणो निणे मृगेन्द्रियभागमजावियूथा तच्छीणिकेतचरणौ सुममार्चनाय सत्यभामोवाच यो मे सनांधिवद्य तप्तहृदा तेन लिप्ताभिपम् अपमपमाटुमुपाजहार जित्वर्छराजमथ रत्नमदाश तेन भीतापितादिशत मां प्रभवेऽपि दत्तां देहं कृतमं निजनाथदेवं सीतापतिं तृणवहान्यमुनाभ्ययुध्यत ज्ञात्वा परीक्षित उपाहरदर्शणं मां पादौ प्रग्रह्यमणिनाहं नमु स्मृतासीम् कालिन्दु उवाच तपश्चरन्तीमाज्ञाय सपादस्पर्शनाशया सक्षोपेताग्रहपाणिं जोहं तन्गृहमार्जनी मित्रबिन्दोवाच यो मां स्वयंवरुपेत्य विजित्य भूपान् निन्नेष्वयूथं गमिवात्मबलिं दिपारिः भ्रान्ते समेऽपकुरुत सपुरं श्रियौक तस्यासपेऽनुभवमङ्घ्यबले जनत्वं सत्यवाच सप्तो बलविर्य बलवीर्य सुदीक्ष सिङ्गान् पित्राकृतां चितपवीर्य परीक्षणाय ीरदुर्मदहनस्तरशान्गृह्य क्रीडन्दबन्ध यथा भोजतोकान् य इत्थं वीर्यशुक्लां मां दासीभिश्च तं चतुरङ्गुलिं पथे निर्जेत्य राजन्यान्यन्ये तद्दाशमस्तु मे भद्रोवाच पिता मातुलेयाय स्वयमाहूय दत्तवान् कृष्णे कृष्णाय तच्चित्तां औक्षिण्यां सखी जनैः अस्य मे पादसंस्पर्शो भवेज्जन्मनि भ्राम्य कर्मभिर्भ्राम्यमाणाया येन तत् श्रेय वाच लक्ष्मणोवाच न मापि राज्ञम कर्म श्रुत्वा मुहुर्नारदगीतमासः चित्तं मुकुन्दे किल पद्महस्तया वितसु सन्देशविहाय लोकपान् ज्ञात्वा मम्मतं साध्मि पिता दुहितृवशलः बृहस्येन इति ख्यात तत्रोपायमचीकरत् यथा स्वयं विरे राज्ञिमस्य कृतः अयं तु बाहिराच्छन्दो दृश्यते स जले परं श्रुत्वैतस्सर्वतो भोपाम् आयुर्युर्मत्प्यतो पुरं सर्वा स्वसहस्रतद्गा त्वज्ञाः सोमात्यां सोपाध्याया सहस्रस श्रत्वयि तत्सर्वतो भोपाम् आयुर्म्युतो पुरम् सर्वास्रस्रतत्त्वज्ञासोपाध्याया सहस्रश निपूजिता सर्वे यथा वीर्यं यथा वयः आदधुसरं चापं वेदतुं पर्षदि मध्यः